कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः वराहकर्णस्तां फलकक्षः फलोदकः हंसचूडः शिखावर्तो हेमनेत्रो विभीषणः पुष्पानः पिङ्गलकः वृक्षवास्य निकेतश्च चीरवासश्च भारत एते चान्ये च बहवो यक्षाशतसहस्रशः सदा भगवती लक्ष्मीस्तत्रैव नलकूबरः अहम् च बहुशस्तस्याम् भवन्त्यन्ये च मद्विधाः ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयो परे क्रव्यादाश्च तथैवान्ये गन्धर्वाश्च महाबलाः उपासते महात्मानं तस्याम् धनदमीश्वरम् भगवान् भूतसङ्घैश्च व्रतशतसहस्रशः उमापतिः पशुपतिः शूलभृद्भदनेत्रः त्र्यम्बको च विगत वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्महारवैः मेदोमांसाशनैरुग्रैरुग्रधन्वा महाबलः नानाप्रहरणैरुग्रैर्वातैरिव महाजवैः व्रतः सखायमन्वास्ते सदैव धनदं नृपा प्रहृष्टा शतशश्चान्ये बहुशः स परिच्छदाः गन्धर्वाणाम् च पतयो विश्वावसुर्हहाहुः तुम्बुरु पर्वतश्चैव शैलूषश्च तथा परः चित्रसेनश्च गीतज्ञस्तथा चित्ररथोऽपि एते चान्ये च गन्धर्वा धनेश्वरमुपासते विद्याधराधिपश्चैव चक्रधर्म सहानुजैः उपाचरति तत्र स्म धनानामीश्वरं आसते चापि भगदत्त भगदत्तपुरोगमाः द्रुमः किं पुरुषैषश्च उपास्ते धनदेश्वरम् राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः सह यक्षै स गन्धर्वैः सह सर्वैर्निषाचरैः